अथ त्रयोदशः क्रुद्धमाज्ञाय महापार्श्वो महाबलः मुहूर्तमनुसञ्चिन्त्य प्राञ्जलिर्वाक्यमब्रवीत् यः खल्वपि प्राप्य मृगव्यालनिषेवितम् न पिबेन्मधु सम्प्राप्य ईश्वरस्येश्वरः कोऽस्ति तव रमस्व सह वैदेह्याशत्रूनाक्रम्यमूर्धसु बलात् कुक्कुटवृत्तेन प्रवर्तस्व महाबला आक्रम्याक्रम्य सीताम् वैताम् भुङ्क्ष्व च रमस्व च लब्धकामस्य ते पश्चादागमिष्यति किम् भयम् प्राप्तमप्राप्तकालम् वा सर्वम् प्रतिविधास्यसे कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः प्रतिषेधयितुम् शक्तौ स वज्रमपि उपप्रदानं उपप्रदानम् सान्वम् वा भेदम् वा कुशलैः कृतम् समतिक्रम्य दण्डेन सिद्धिमर्थेषु शुरोचये। इह प्राप्तान् वयम् सर्वान् शत्रून्स्तव महाबला वर्षे शस्त्रप्रतापेन करिष्यामो न संशयः एवमुक्तस्तदा राजा महापार्श्वेन रावणः तस्य सम्पूजयम् वाक्यमिदम् वचनमब्रवीत् महापार्श्वनिबोधत्वम् रहस्यम् किञ्चिदात्मनः चिरवृत्तम् तदाख्यास्ये यदवाप्तम् पुरा मया पितामहस्य भवनम् गच्छन्ती पुञ्जिकस्थला चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव सा प्रसह्य मया भुक्ता कृता विवसना ततः स्वयम् भूभवनम् प्राप्ता लोलिता नलिनी यथा तच्च तस्य तथा मन्ये ज्ञातमासीन्महात्मनः अथ संकुपितो वेधा मामिदं वाक्यमब्रवीत् अद्य प्रभृति या मन्याम् बलान् नारीम् गमिष्यसि तदा तेष तथा न संशयः इत्यहम् तस्य शापस्य भीतः प्रसभमेव रोहये बलात् सीताम् वैदेहीम् शयने शुभे सागरस्येवमेवे गो मारुतस्येव मे गतिः नैतद्दाशरथिर्वेद ह्यासादयति ते न माम् को हि गिरिगुहाशये क्रुद्धम् नृत्युमिवासीनम् प्रबोधयितुमिच्छति न मत्तो निर्गतान् बाणान् विजिह्वान् रामः पश्यति सङ्ग्रामे तेन मामभिगच्छति क्षिप्रम् वज्रसमैर्बाणैः शतधाकार्मुकच्युतैः राममादेपयिष्यामि उल्काभिरिव कुञ्जरम् तच्चास्य बलमादास्ये बले न महता वृतः उदितः न वेना सहस्र चक्षुषा युस् शक्यो वरुणेन वुन मैयाय बाहुबल निर्जिता पुरी वैश्रवणे नाता इशे श्रीमद्राणे वाक्ये युद्धकांडे तयोदशः सर्ग